मुद्गलपुराणं खण्डं 6 विकटचरितम् अध्यायं फोर्टिवन् मयूरेशचरितवर्णनं श्रीगणेशाय नमः आदिशक्तिरुवाच कदाचित् सुखमासीनं गणैः समावृतं शिवं दृष्ट्वा मयूरेशो माया माविश्चकारः समागत्यमहेशानं महेशानं तस्य भालस्थितं प्रभुः चन्द्रं गृह्य गणेशानप्रययौ क्रीडनोत्सुकः मायया मोहिताः सर्वे शिवमुख्या विशेषदः न जानन्ति स्म देवेशं िणम् तदशिवस्वभाले तं न दददर्शनिशाकरं क्रोधयुक्तो गणान्प्राह कथं चन्द्रोगदो गणाः तदो मुनिसुदा प्रोजुसमागत्य महेश्वरं चन्द्रं गृह्यमयूरे शक्लत्यस्माभिरादराद तद क्रोधसमाविष्ट उवाचः शिवो गणान् बद्ध्वा गणेश्वरं ताढ्यानयद्वं मेद्यसन्निधौ तदोगणायुस्थं ते तेन निःश्वासवायुना निक्षिप्ता शङ्करस्याग्रे शुष्कपत्रसमप्रभाः एवं क्रमेण सर्वान् स मयूरेशो गणेश्वरान् भग्नदर्पांश्चकारैव शिवश्चिन्तातुरोभवत् ततो मायां समाश्रित्य शिवभाले निशाकरं मयूरेश समागत्या स्थाप्य भ्रान्तांश्चकारः स्वभालस्तं महेशानो दृष्ट्वा चन्द्रं गणास्तथा मे निरेतं सदा तत्र संस्थितं तं गदागतं एवं शिवं पराधीनं कारयामास विध्नवः स्तदत् कदाचित् दैत्येन्द्रं वनं हन्तुं जगामः व्याघ्ररूपधरं दृष्ट्वा शार्दूलोभूद्गजाननः नदं जानन्ति विप्राणां सुदा शार्दूलरूपिणं यत्र तत्र भ्रमन्ति स्म बालास्तद्दर्शनोत्सुकाः ते सर्वे सुष्वपुश्रान्ता निद्रां लेभुश्रमान्विताः पादं दक्षिणदिक्संस्थं दृष्ट्वा तेषां च भानुजः तान् गृह्य बद्ध्वा चिक्षपेश्वपुरे यमः हत्वा दैत्यं मयूरेश स्वपुरं पुनराययौ न तत्र मुनिपुत्रान् स ददर्श विस्मदोऽभवद गत्वा स्वर्गे यमं जित्वा ययौ तैर्मुनिबालकैः येवं नानाविधां क्रीडां चकारमयूरध्वजः दशपञ्चवयोवर्षाण्यतिक्रम्य गणेश्वरः शुशुभे खेलसंयुक्तो दैत्यान् हत्वा विशेषदः अथ तत्राययौ योगी नारदो गणपं स्मरन् उवाच शङ्करं सोऽपि हर्षयुक्तेन चेतसा नारद उवाच तपःसाराधितौ देव्यौ सिद्धि बुद्धिदुवेधसा वरदानेन ते पुत्र्यौ बभूवधुः प्रजापदे तदर्थं ब्रह्मा नावाप वरमुत्तमं मयूरेशाय अधुना धातुमिच्छति स तदेदि तदेधि तमुवाचाद शङ्करस्तेन संयुतः मयूरेशं समागृह्य निर्ययौ गणस्वयं मार्गमध्ये मयूरेशो ददर्शनगरं परं देव विमोक्षार्थं विचारमकरोत्परं तदो युद्धं महाकोरं चकार सिन्धुना स्वयं मयूरेशो गणैसार्धं सोपितेन तेन महासुरः ततः परशुना भित्त्वा त्वमृदसंयुतां मारयामास सिन्धुं च नानाद्यैत्येन्द्रनायकैः विष्णु भक्तः पिता तस्य चक्रपाणिर्महायशाः मयूरेशार्थंश विचार्यशरणं ययौ त्यक्त्वा सर्वं गणेशे लालसो भक्तिसंयुधः बभूव तं स्वपुर्यां तु समानाय्य पुपूजः कारागृहाच्चक्रपाणिर्निष्कास्य विष्णुमुख्यकान् देवान् देवेन्द्रयुक्तांश्च पूजयद्भक्तिसंयुतः तत्र ब्रह्मा प्रहर्षेण सस्मारतनये स्वके सिद्धिबुद्धि समायादे रूपलावण्यसंयुते ते दृष्ट्वा कामसन्तप्ता देवेन्द्राश्च बभूविरे देवास्तं प्रार्थया मासुप्रत्येके विधिमादराद अस्मभ्यो देहि देवेश कन्ये परमसुन्दरे नदृष्टे दृष्टे सदृश्ये कुत्र कामिनीनाम् गणेषु च तदोब्रह्मा जगादैव न सदृशः सुरेश्वराः आभ्यान्तस्मान्मयूरेषा यदास्यामि मदात्मजे तदोधिप्रार्थयामासुर्देवा सर्वे पितामहम् जगादवचनं युक्तं सपुत्र्यौ केदसंयुधः सिद्धिबुद्धि सुरेन्द्रेषु वृणुतं वरमीप्सितं ते वूच दुर्विधातारं चित्तस्तं तं वृणीवहे ततो मात्रां समागृह्य चिन्तामणिं प्रदृश्यते सिद्धिबुद्धिमयूरेशं त्यक्त्वा देवांश्च जग्मधुः मालाङ्गले गणेशस्य तत्तश्चिक्षिपदुर्विधिः तस्मै समर्पयामास सिद्धिं बुद्धिं विधानदः ततः सर्वे प्रणेमुस्तं देवेन्द्रादय आदराद सिन्धोर्वधात् प्रहर्षेण युक्ताः सम्पूज्य तुष्टुवुः देवर्षय ऊचुः नमस्ते शिखिवाहाय मयूरध्वजधारिणे मयूरेश्वरनाम्ने वै गणेशाय नमो नमः अनादानां प्रणादाय गदाहङ्कारिणां पदे मायाप्रचालकायैव विघ्नेशाय नमो नमः सर्वानन्दप्रदात्रे दे सदा स्वानन्दवासिने स्वस्वधर्मरतानां च पालकाय नमो नमः अनादये परेशाय दैत्यदानवमर्दिने विधर्मस्थस्वभावानां हर्त्रे विकटते नमः शिवपुत्राय सर्वेषां मात्रे पित्रे नमो नमः पार्वतीनन्दनायैव स्कन्दाग्रज नमो नमः नानावताररूपैस्तु रूपैस्तु ते काश्यपाय नमस्तुभ्यं शेषपुत्राय ते नमः सिन्धुहन्द्रे जैरम्भाय परशुधरायते देवदेवेशपालाय ब्रह्मणाम् पदये नमः योगेशाय सुशान्तिभ्यः शान्तिदात्रे कृपालवे अनन्दाननबाहोते नन्दोदर नमो नमः अनन्तविभवायैव चित्तवृत्तिप्रचालक सर्वहृत् थाय सर्वेषां पूज्याय ते नमो नमः सर्वादिपूज्यरूपाय ज्येष्ठराजाय ते नमः गणानां पदये चैव सिद्धिबुद्धिवराय च किं स्तु मस्त्वां मयूरेश यत्र वेदादयः प्रभो योगिनः शान्तिमापन्ना अदो नमामहे वयम् तेन तुष्टो भव स्वामिन् दयाखनप्रवर्तक त्वदीयाङ्गसमुद्भूतान् रक्षणो नित्यदा प्रभो एवं स्तुत्वा प्रणेमुस्थं तदो देवो ब्रवीन्सतान् वरान् वृणुद देवेशा मुनिभिश्च समन्विताः भवत्कृतमिदं स्तोत्रम् सर्वसिप्रदायकम् भविष्यति महाभागा मम प्रीतिविवर्धनम् यः पठेत् शृणुयाद्वापि श्रावयेत् स लभेत् पराम् भुक्त्रिं मुक्त्रिम् मदीयाम् नरो भक्त्रिम् न मयूरेश वच श्रुत्वा देवाः सर्षिगणाश्च तं प्रत्यूचुस्ते प्रणम्येदं वजनं हर्षसंयुता दवर्षय ऊचुः यदि प्रसन्नभावेन वरान् दास्यसि विघ्नप त्वदीयामचलां भक्तिं देहिनाथ नमोऽस्तु दे हदःसिन्धुर्महावीर्यस्तेन सर्वे कृतार्थकाः अधुना स्वाधिकारेषु गमिष्यामस्त्वदाज्ञया तथेदि तानुवाचाथमयूरेशप्रतापवान् दत्त्वा भक्तिं स्वकीयां तु राज्ञे सर्वैर्जगामः चक्रपाणिर्गणेशस्य पञ्चायतनमार्गदः अभजत् तं मयूरेशमन्ते स्वानन्दगो भवद मयूरेश समायाधो मयूरे, मयूरे, मयूरे सर्वसंयुतः सर्वान् संस्थाप्य देवेशान् जगादमुनिसत्तमान् यदर्थमागदा देवास्तत्सर्वं सुकृतं मया अधुना निजलोकेखं गमिष्यामि मुनीश्वराः एवमुक्त्वार्दधे सौ मयूरेशस्वलीलया देवर्षयश्चखेदेन युक्तास्तत्रैव संस्थिताः पार्वदी पार्वतीशङ्करौ तत्र मूर्छितौ स बभूवधूः तयोर्हृतिमयूरेशप्रकडो भूज्जगादत्तौ भवतो हृदि संस्थोऽहं चित्तवृत्तिप्रचालकः न वि योगः कदा मे वां पितरौ नात्र संशयः बहिर्मूर्तिं समास्ताप्या पूज्य तत्रैव भक्तिदः सेवेथाम् माम् विशेषेण तेन तुष्टौ भविष्यतः एव मुक्त्वा तर्दधेसौ गणेशो गणवल्लभः ब्रह्ममूर्तिम् द्विजैस्तस्य स्थापयामास हर्षदः तदोहर्षयुधा सर्वे स्वां श्येन स्वस्थलेषु ते संस्थिता कार्यसिद्ध्यर्थं स्वस्वकर्मपरायणाः पूर्णभावेन तत्रैव मयूरे शं शिर्षे विरे क्षेत्रवासपरा सर्वे भक्तियुक्ताश्च शक्तयः विकटस्यावतारोऽयं मयूरेश्वरसं निधः भक्तानां कथितः सर्वसिद्धिदप्रीतिवर्धनः यः पठेत् शृणुयाच्चेद्वा स लभे दीप्सितं फलम् अन्दे स्वानन्दगो भूत्वा मोददे ब्रह्मतत्परः तत्परः ॐ तत्सदिति पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे षष्ठे खण्डे नामैक मयूरेशचरितवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ओ